मूकपञ्चाशत् शतकं वन् आर्याशतकं मीटर् गीति कारणपरचिद्रूपा काञ्चीपुरसीम्निकामपीठगदा काचन काश्मीरस्तबक काश्मीरस्तबककोमलाङ्गलदा कञ्चन काञ्चीनिलयं करधृदकोदण्डबाणसृणिपाशं कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे चिन्दितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलयामे चिरतरसुचरितसुलभाचित्तं शिशिरयदुचित्सुखाद्धारा कुटिलकचं कठिनकुचं कुन्दस्मिदकान्दिकुङ्कुमच्छायं कुरुते विहृतिं काञ्च्यां कुलपर्वत सार्वभौम पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपादेन काञ्चीसीम्निकुमारी काचन मोहयदि कामजेतारम् परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया परतन्द्वा वयमनया पङ्कजसब्रह्मचारिलोचनया ऐश्वर्यमिन्दुं मौलेरैकात्म्यप्रकृतिकाञ्चिमभ्यगदम् ऐन्दव बर्यं चकास्ति निगमानाम् मानं सिधिलिद शिथिलिद परमशिवधैर्यमहिमानम् कलये भुवन भूमानं कञ्चन कञ्चुकिदभुवनभूमानम् आदृत काञ्चीनिलया माद्यामारूढयौवनाटोपाम् आगमवतं सकलिकामानन्दाद्वैतकन्दलीं वन्दे तुङ्गाभिरामखुजभरशृङ्गारितमाश्रयामि काञ्चिगदं गङ्गाधरपरतन्द्रं शृङ्गाराद्वैतन्द्रसिद्धान्तम् काञ्चीरत्नविभूषां कामपि कन्दर्पसूदिकापाङ्गीं परमां कलामुपासे परशिव वामाङ्गपीठिकासीनाम् कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् केलीवनं मनोमे केषाञ्चित् भवतु चिद्विलासानाम् आम्रतरुमूलवसदे रादिमपुरुषस्य नयनपीयूषम् आरब्धयौवनोत्सवमाम्नायरहस्य मन्तरवलम्बे अधिकाञ्चिपरमयोगिभिरादिमपरपीठसीम्निदृश्येन अनुबद्धं मम मानसमरुणिम सर्वस्वसम्प्रदायेन अङ्गितशङ्करदेहामङ्गुरितो रोचकङ्कणाश्लेषैः अधिकाञ्चि नित्यतरुणी मद्राक्षं काञ्चिदद्भुतां बालां मधुरधनुषा महीधरजनुषा नन्दमि सुरभिबाणजुषा चिद्वपुषा काञ्जिपुरे केलिजुषा बन्धुजीवकान्दिमुषा मधुरस्मिते रमदे मांसलकुजभारमन्दगमनेन मध्ये काञ्चिमनो मे मनसि ज साम्राज्यगर्वबीजेन धरणिमयीं तरणिमयीं पवनमयीं गगनदहन होद्रमयीं अम्बुमयी मिन्दुमयी अम्बामनुकम्बमादिमामीक्षे लीनस्तिमुनिहृदये ध्यानस्तिमिदं तपस्यदुपकम्बं पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् श्वेता मन्थरहसिते शादा मध्ये जवाड्भनोदीता सीता लोचनपाते स्वीता कुचसीं निशाश्वती माता पुरधकदा न करवै पुरवैरिभिमार्दपुलकिताङ्गलताम् पुनदीं काञ्जीदेशं पुष्पायुधवीर्यसरसपरिपाटी पुण्या कापि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा पुलिनचरी कम्पायाः पुरमधनं पुलकनिचुलिदं कुरुते तनिमाद्वैधवलग्नं तरुणारुणसम्प्रदाय तनुलेखम् तडसीमनि कम्बायास्तरुणिम सर्वस्वमाद्यमद्राक्षम् पौष्टिकर्मविपाकम् पौष्पशरम् सविधसीम्नि कम्बायाः अद्राक्षमात्रयौवनमभ्युदयम् कञ्चिदर्धशिमौलैः संसृतकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे संविन्मये विलीये सारस्वदपुरुषकारसाम्राज्ये मोदिदमधुकरविशिखम् स्वादिमसमुदायसारकोदण्डम् आदृद काञ्चीखेलनमादिममारुण्यभेदमाकलये उरीकृत काञ्चीपुरीमुपनिषदरविन्दकुहरमधुधारा उन्नम्रस्थनकलशीमुत् सवलहरीमुपास्मके शम्भोः स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदं दयमानं वीक्ष्य मुहुर्वयमानन्दा मृदाम्बुधौ मग्नाः कुतुकजुषि कांची देशद तपो राशिपाकशेखरी दे, कु मनो विहार कलश गरिम परवशितं, विद्रुम परशिम विद्रुमसहचरदेह विभ्रमसमवायसारसन्नाहम् कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्बायाः कूलङ्कषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् कुट्मलितकुचकिशोरैः कुर्वाणैः काञ्झिदेशसौहार्दं कुङ्कुमशोणैर्निचितम् कुशलपदं शम्भुसुकृतसम्भारैः अङ्गितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् अन्धपुरेण शम्भोरलङ्क्रिया कापि कल्प्यदे काञ्च्याम् ऊरीकरोमि सन्तदमुष्मलभालेन लालितं पुंसा उपकम्पमुजिदखेलनमुर्वीधरवंश सम्पदुन्मेषम् नकोरकमङ्गालङ्कारमेकचूदपतेः आलोके महि कोमलमागमसंलापसार याथार्त्यम् कुञ्चिदकरुणमुदञ्चिदशिञ्चिदमणिकाञ्चि किमपि काञ्चिपुरे मञ्चरिदमृदुलभासं पिञ्जरतनुरुचिपिनाकिमूलधनं लोलहृदयोऽस्ति शम्भोर्लोचनयुगलेन लेह्यमानायां लालितपरमशिवायां लावण्यामृदतरङ्गमालायाम् मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकडाक्षैः मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यं वदनारविन्दवक्षो वामाङ्गतडीवशं वदीभूता पुरुषत् ृतयेत्रेधा पुरन्ध्रिरूपात्वमेव कामाक्षि बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् आधारी कृतकाञ्जी बोधा मृदवीजिमेव विमृशामः कलयाम्यन्तःशधर कलयाङ्गिदमौलिममलचिद्वलयाम् अलयामागमपीढी निलयां बलयाङ्गसुन्दरीमम्बां सर्वादिपरमसाधगुर्वानीताय कामपीढजुषे सर्वा कृतयेशो निम गर्वायास्मै समर्प्यते हृदयम् समया सान्ध्यमयोकैः समया बुद्ध्या सदैव शीलितया उमया काञ्चीरतया नमया मया लभ्येद जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि वन्धो यदि भवति पुनः सिन्धो रम्भस्सु बंभ्रमीदि शिला कुण्डलिकुमारिकुडिले चण्डिचराचरसवित्रिचामुण्डे गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि अभिदा कृतिर्भिदा कृतिरचिता कृतिरभिचिता भ्रमयसि कामाक्षि शाश्वती विश्वम् शिवशिव पश्यन्ति समं श्रीकामाक्षी कडाक्षिदाः पुरुषाः विपिनं भवनममित्रं मित्रं, मित्रं लोष्ठं च युवति बिम्भोष्ठं कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगदे कामदुःखा भवकमले कामकले कामकोली कामकोलिकामाक्षि मध्ये हृदयं मध्ये निडिलं मध्ये शिरोपि वास्तव्या शिरोऽपि वास्तव्यां चण्डकरचक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षी अधिकाञ्चिकेलिलोलैरखिलागमयन्द्रमन्द्रतन्द्रमयैः अधिशीतं मम मानस मसमशरद्रोहि जीवनोपायैः नन्ददिं मम हृदि इन्दुरविमण्डलकुजाबिन्दुवियन्नादपरिणदातरुणी शम्बालतासवर्णं सम्पादयितुं भवज्वरचिकित्सां लिम्बामि मनसि किञ्चन कम्पातडरो हि सिद्धभैषज्यम् अनुमितकुचकाढिन्यामधिवक्षः पीठमङ्गजन्मरिपोः आनन्ददां भजेदा मानङ्गब्रह्मतत्त्वबोधशिरा ऐक्षिषिपाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् अधिकाञ्चि निगमवाचा सिद्धान्तं शूलपाणिशुद्धान्तम् आशितविलासभङ्गी मा ब्रह्मस्तम्भशिल्पकल्पनया आश्रित काञ्ची मधुला माद्यां विस्फूर्तिमाद्रिये विद्या मूकोऽपि जटिलदुर्गति शोकोऽपि स्मरति यः क्षणं भवतीं येको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि पञ्चदशवर्णरूपं कञ्चनकाञ्चीविहारधौरेयं पञ्चशरीयं शम्भोर्वञ्चनवैदध्य मूलमवलम्बे परिणदिवतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीं पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्यां स्वादिष्टचापदण्डां नेदिष्ठामेव कामपीठकताम् तुष्यामि हर्षिदस्मरशासनया काञ्चीपुरकृतासनया स्वास् सकल जगद्भासनया कलिदशम्बरासनया प्रेमवदी कम्बायां स्तेमवती यदि मनःशुभोमवती सामवती नित्यगिरा सोमवती शिरसिभादि हैमवती कौतुकिना कम्बायाम् कौसुमचापेन कीलिना कुलद कुमुद्रा धुनो दुर्न प्रतिभा यूना के मिल स्वाहा सहायतिल के सहकारमूल संविद्रूपाकुटुम्बिनीरमदे कुसुमशरगर्वसम्बत्कोशगृसम्भाधि काञ्चिदेशगदं स्थापितमस्मिन् कथमपि गोपितमन्तर्मया मनोरत्नम् दग्धषडध्वारण्यम् दरदलित कुक कुकुसुंभसंुण्यम कलए नवु्यम कंबा तड़ीं कि कारुण्यं मदुलाम करवाणी पारणामक्ष्णोः आनन्दपाकभेदा मरुणिमपरिणामगर्वपल्लविदाम् बाणसृणिपाशकार्मुकपाणिममं कमपि कामपीठगदं येणधरकोणचूडं शोणिमपरिपाकभेदमाकलये किं वा भलदि ममान्याौर्बिम्बाधरचुम्बिमन्दहासमुखी सम्बाधकरी तमसाम जागर्तिमनसि कामाक्षि मञ्जे सदा शिवमये परशिवमयलितपौष्पपर्यङ्गे अधिचक्रमध्यमास्ते कामी नाम कि मम भाग्यं रख्योस्मे काम पीढ़ी लाशिकया खनकृबाबुराशिया श्रुति युवती कुंदलीमिकया तो हिन्शलबालिकया लीए पुरहर जाए मे तव तरुण पलव्च्चा चे चंद्राभे काीश नताे मूर्तिमिमुक्ति बीजे मूर्धनिस्तगकिचकोरसाज्ये कूले। मुहुर, मुहुर, मनसे मुहुर्मुहुर्मनसि मुमुदिशास्माकम् वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीं मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीं पुरमधनपुण्यकोटी कुंजित कलोकसूक्रिसाड़ी मन मम कामकोटी विहरदुकुणा विपाक कुटिल चडुम मृदुम मृदुम कचनय नजखनचरण अवलोकितलंबितकयमस्म प्रत्यं प्रत्यङ्मुख्या दृष्ट्या प्रसाददीपाङ्कुरेण कामाक्ष्याः पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासं विद्ये विधातृविषये कात्यायनिकालिकामकोडिकले भारतिभैरविभद्रे शाकिनी शिस्तुती मलिनी महेशचा कापक्ष कालि शूलि विद्रुमशालि सुरजनपालिनी कपालिनी नमोस्त देशिक किं संगे तत्तादृक्तवनुतरुणिमोन्मेषः कामाक्षिशूलपाणिः कामागमसमययज्ञदीक्षाया वेदण्डकुम्भडम्बरवैदण्डिककुचभरार्तमध्याय कुङ्कुमरुचे नमः शङ्करनयनामृताय रचयामः अधिकाञ्चिदमणिकाञ्चन काञ्चीमधिकाञ्ची काञ्चिद्राक्षम् अवनदजनानुकम्बामनुकम्बा कूलमस्मदनुकूलं परिचितकम्बा तीरम् पर्वतराजन्यसुहदसन्नाहं परगुरुकृपया वीक्षे परम शिवोत्सङ्गमङ्गलाभरणम् दग्धमदनस्य शम्भोः प्रधीयसीं ब्रह्मचर्यवैदग्धीं तव देवि तरुणिमश्री चतुरिमपाको न चक्षमे मातः मदजलतमालपत्रा वसनिधपत्रा करादृतकनित्रा विहरदिपुलिन्दयोषा गुञ्जाभूषा भणीन्द्रकृधवेष अंगे शुकिनी गीते कौतुकिनी परिसरे च गायकिनी जयसि सविधेम्बभैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी प्रणदजनतापवर्गा कृदबहुसर्गा ससिंहसंसर्गा कामाक्षी कामाक्षिमुदिदभर्गा हदरिपुवर्गा त्वमेव सा दुर्गा श्रवणचलद्वेदण्डा समरोद्दण्डा दुदासुरशिखण्डा देवि कलितान्द्रण्डा धृतनरमुण्डा त्वमेव चामुण्डा उर्वीकदन भक्पूरेण गुर्वीम किंचनार्ति कुशे म काम ताडितरीपुपरीपीडन भयहरणे निपुणल मुसला मुखी क्रोडपतिषण क्रीडसी जगदी काम स्मरमन वरणोला बाला, कनकुजिचौशीलामंबाला कराजृतमला कमलकुडी विमलपडीकमलकुडी पुस्तकरुद्राक्षशस्तहस्तपुडी का कामाक्षिपक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची कुङ्कुमरुजिपिङ्गमसृक्पङ्गिलमुण्डालिमण्डितं मादः जयदि तव रूपधेयं जपपडपुस्तकवराभयकराब्जम् का कनकमणिकलितभूषां कालाय स कलहशीलकान्तिकलां कामाक्षिशीलये त्वां कपाल शूलारामकमला लोहितमपुंज मध्ये भुवने मुदा निरीक्ष वदनम तव कुवयुगल पिकामाक्षी। जलधे काम जलधिगुणितुद दिशा दिनेश्वर दिशादिनेश्वरकलाश्विनेयदलैः नलिनैर्महेशि गच्छसि योग सत्कृतदेशिकचरणास्सबीजनिर्बीजयोगनिःश्रेण्या अपवर्गसौधवलभीमारोहन्द्यम्बकेऽपि तव कृपया अन्तरपि बहिरपि त्वं जन्तु तदेरन्तकान्तकृदहन्ते सन्ततमपि तन्दनीशिमहिमानम् कलमञ्चुलवागनुमिदगलपञ्चरगदशुकग्रहौत्कण्ठ्यात् अम्बरधनाम्बरं ते बिम्बफलं शम्बरारिणान्यस्थम् जय जय जगदम्बशिवे जय जय कामाक्षि जय जयाद्रिसुदे जया जय जय महेशयि जय जय चित गगन मुदी कौमुदी थे आर्शतक्रिया पठता मैया कड़ाक्षेण निःसिवदनकमलावाणी पीयूषोरणी दिव्या आरयाशतक सम्पूर्णम् ओ